श्रीगुरुभ्यो नमः हरिः ओम् अन्नपूर्णोपनिषद् अध्यायम् फोर् चीवन्मुक्तस्य किं लक्ष्मह्याकाशगमनादिकं तथा चेन्मुनिशार्दूल तत्र नैव प्रलक्ष्यते अनात्म मुक्त नभो विहरणादिकं विहरण द्रव्य मंत्रक्रियाशक्त सद्जनात्त्म येष विषय आत्मज्ञो ह्यादृक आत्मनात्मन संतृप्त नद्यामु ये, ये तान विद्याम विदु त्यक्ता विद्यो महायोगी कथम ते शुनिम्जी यस्तु मूढ़ोत्बुद्धिवा सिला वादी सिद्धि साधनैगैस्ताधयदि क्रद द्रव्यमन्त्रक्रियाकालयुक्त यः साधुसिद्धिदाः परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन यस्येच्छा साधयत्यहो निरिच्छोः परिपूर्णस्य सर्वेच्छा जाल संवात्म भवन्मुने सक सिला नौनम वाचंद्यचित अभी शीतलुजा वर्क सुदीक्षण अप्य प्रसरद अग्नौ जीवन मुक्त न विस्मी धिष्ठाने परे तत्वे कल्पिता रज्जु सर्पवद कल्पिताश्चर्यजालेषु नाभ्युदेधि कुतूहलम् येहि हि विज्ञातविज्ञेया वीदरागा महाधियः विच्छिन्नग्रन्थय सर्वे ते स्वतन्त्रास्तनौ स्थितः सुखदुःखदशाधीरम् साम्यान्न प्रोद्धरन्दियं निश्वासा इव चित्तं तस्य मृदं विदुः आपत्कात्पण्यमुत्साहो मन्दो मान्द्यं महोत्सवः यं नयन्दिनवैरूप्यं तस्य नष्टं मनो विदुः द्विविधचित्तनाशोऽस्ति सरूपो रूप एव च जीवन्मुक्तौ सरूपस्यादरूपो देहमुक्तिगः चित्तसत्तेः दुःखाय चित्तनाशसुखाय चित्तसत्तं क्षयं नीत्वा चित्तं नाशमुपानयेद मनस्ताम् मूठतां विद्धि यदा नश्यति सानख चित्तनाशाभिधानं हि तत्स्वरूपमितीरिदम् मैत्र्यादिभिर्गुणैर्युक्तं भवत्युत्तमवासनं भूयो जन्मविनिर्मुक्तं जीवन्मुक्तस्य तन्मनः स्वरूपोऽसौ मनो नाशो जीवन्मुक्तस्य विद्यते निताकारूपनाशस्तु वर्तते देहमुक्तिके विदेहमुक्तयेवासौ विद्यते निष्कलात्मकः समग्राग्र्यगुणाधारमपि सत्वं प्रलीयते विदेहमुक्तौ विमले पदे परमपावने विदेहमुक्तिविषये तस्मिन् सत्वक्षयात्मके, चित्तनाश्ये विरूपाख्ये न किञ्चिदिक विद्यते न ना गुणा नागुणास्तत्र न ना श्रीर्नाश्रीर्न ना लोकता न ना चोदयो नास्तमयो न ना हर्षा मर्षसंविदः न तेजो न तमः किञ्चिन्न सन्ध्यादिनरात्रयः न सत्तापि न चासत्ता न च मध्यं हि तत्पदम् ये हि गदा बुद्धे संसाराडम्बरस्य च तेषां तदास्पदं स्वारं पवनानामि वाम्बरम् संशान्तदुःखमजडात्मकमेकसूप्तमानन्दमन्धरमपेतरजस्तमो यद् आकाशकोशतनवो तनवो, तनवो महान्तस्तस्मिन् पदे गडितचित्तलवा भवन्ति हे निदाखमःप्राज्ञनिर्वासनमना भव बलाचेदसमाधाय निर्विकल्पमना भव यज्जगद्भासकम् भानं नित्यम् भादि स्वतस्फुरद स एव सर्वात्मा विमला प्रदिष्टा सर्वभूतानां प्रज्ञानखनलक्षणः तद्विद्याविषयं ब्रह्मसत्यज्ञानसुखाद्वनम् ्रह्माहमस्मीति कृतकृत्यो भवेन्मुनिः सर्वाधिष्ठानमद्वन्द्वम् परं ब्रह्मसनातनम् सच्चिदानन्दरूपम् तदवां मनसगोचरं। नतत्र चन्द्रार्कवभुः प्रकाश्यते न वादिवादशकदाश्च देवताः स एव देवकृतभावभूतस्वयं विशुद्धो विरच प्रकाशते भिद्यते हृदयग्रन्थिश्चिद्यन्ते सर्वसंशयाः क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे द्वौ सुवर्णौ जीवे जीवेशाख्यौ सहस्तिदौ तयोर्जीवफलं भुङ्ग्रे कर्मणो न महेश्वरः केवलं साक्षिरूपेण विना भोगो महेश्वरः प्रकाशदे स्वयम्भेदकल्पितो मायया तयोः भिन्ना न भिन्ना चित्वहानितः तर्कतश्च प्रमाणाश्च चिदेकत्वव्यवस्थितेः चिदेकत्वपरिज्ञाने न शोचति न मुह्यति अधिष्ठानं समस्तस्य जगतः सत्यचित्खनम् अहमस्मीति निश्चित्य वीदशोको भवेन्मुनिः स्वशरीरे स्वयं ज्योतिस्वरूपं सर्वसाक्षिणम् क्षीणदोषाः प्रपश्यन्ति नेतरे मायया वृताः तमेव धीरो विज्ञाय प्रज्ञां कुर्वीद ब्राह्मणः नानुध्यायात् वाजो विग्लापनं हि तद् बालेनैव हि तिष्ठा सेन्निर्विद्य ब्रह्मवेदनम् ब्रह्मविद्यां च बाल्यम् च निर्विद्य मुनिरात्मवान् अन्तर्लीनसमारम्भशुभाशुभमहाङ्गुरम् संसृतिव्रततेर्बीजम् शरीरम् विद्धिभौधिकम् भावाभावदशाकोशम् दुःखरत्नसमुद्गकम् बीजमस्य शरीरस्य चित्तमाशावशानुगम् द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारिणः एकं प्राणपरिस्पन्दो द्वितीयो दृढभावना यदा प्रस्पन्दे प्राणो नाडी संस्पर्शनोऽद्यतः तदा संवेदनमयं चित्तमाशु प्रजायते सा हि सर्वगदा संवित् संरोधनं श्रेयःप्राणादिस्पन्दनं वरं प्राणरोधनं प्राणायामैस्तथा ध्याह्प्रयोगैर्युग्रिकल्पितैः चित्तोपशान्तिफलदं परमं सुखदं संविदस्वास्थ्यं प्राणसंरोधनं विदुः दृढभावनया त्यक्तपूर्वापरविचारणं यदा दानं पदार्थस्य वासना सा प्रकीर्तिता यदा न भाव्यते किञ्चिद्धेयोपादेयरूपी सकलं त्यक्त्वा तदा चित्तं न जायते अवासनत्वात् सततं यदा मनुते मनः अमनस्तास्तदो देदि परमोपशमप्रदा यदा न भाव्यदे भावक्वचिज्जगदि वस्तुनि तदा हृदम्बरे शून्ये कथं चित्तं प्रजायदे यदभावनमस्ताय यदभावस्य भावनं यद्यथा वस्तु दर्शित्वम् तद चित्तत्वमुच्यते सर्वमन्धपरित्यज्य शीतलाशयवर्ति यद वृत्तिस्थमपि तच्चित्तमसद्रूपमुदाहृदम् भ्रष्टबीजोपमा येषाम् पुनर्जननवर्जिता सनारसनाहीना जीवन्मुक्ता हि दे स्मृताः सत्त्वरूपपरिप्राप्तचित्तास्ते ज्ञानपारगाः अचित्ता इति कथ्यन्ते देहान् देव्योमरूपिणः संवेद्य सम्परित्यागात्प्राणस्पन्दनवासने समूलम् नश्यदः क्षिप्रम् मूलच्छेदादिवद्रुमः पूर्वदृष्टमदृष्टम् वा यदस्याः प्रतिभासते संविदस्तत्प्रयत्नेन मार्जनीयम् विजानता तदमार्जनमात्रम् हि महासंसारदाम् गतम् तत्प्रमार्जनमात्रम् तु मोक्ष इत्यभिधीयते अजडो गलितानन्दस्त्यक्तसंवेदनो भव संविद्वस्तु दशालम्बः सा यस्येतन विद्यते सोऽ संविदजडः प्रोक्तः कुर्वन् कार्यशतान्यपि संवेद्येन हृदाकाशे मनागपि न लिप्यते यस्या वजडा संविज्जीवन्मुक्तः स यदा न भाव्यते किञ्चिन्निर्वासनतयात्मनि बालमूकादिविज्ञानमिव च स्थिरं तदा जाड्यविनिर्मुक्तमः संवेदनमाददम् आश्रितं भवति प्राज्ञो यस्मात् भूयो न लिप्यते समस्तावासनास्त्यक्त्वा निर्विकल्पसमाधितः तन्मयत्वादनाद्यन्ते तदप्यन्तर्विलीयते तिष्ठन् गच्छन् स्पृच्छन् जिख्रन्नपि तल्लेपवर्जितः अजडो गलिदानन्दस्त्यक्तसंवेदनः सुखी एताम् दृष्टिमवष्टभ्य कष्टचेष्टायुतोऽपि सन् तरे पारमपारगुणसागरः विशेषम् सम्परित्यज्य सन्मात्रम् यदलेपकम् एकरूपम् महारूपम् सत्तायास्तत्पदम् विदुः कालसत्ता कलास्तत्ता वास्तु यमित्यपि, विभागकलनाम् त्यक्त्वा सन्मात्रैकपरो भव सत्ता सामान्यमेवैदम् भावयन् केवलम् विभुः परिपूर्णः परानन्दि तिष्ठा पूरितदिग्भरः सत्ता सामान्यपर्यन्ते यत्तत्कदनयोच्छिदं पदमाद्यमनाद्यन्तं तस्य बीजं न विद्यते तत्र संलीयते संविन्निर्विकल्पं च तिष्ठति भूयो न वर्धते दुःखे तद्धे दुःसर्वभूतानां तस्य हेतुर्न विद्यते स सार सर्वसाराणां तस्मात् सारो न विद्यते तस्मिंश्चिदर्पणे स्वारे समस्ता वस्तु इमास्ताः प्रतिबिम्बन्ति सरसीव तडद्रुमाः तदमलमरजं तदात्मतत्वं तदवगदा उपशान्तिमेधि चेदः अवगतविकतैकतत्स्वरूपो भवभयमुक्तपदोऽसि सम्यगेव एतेषां दुःखबीजानां प्रोक्तं यद्यन्मयोत्तरं तस्य तस्य प्रयोगेण शीघ्रं तत्प्राप्यदे पदम् सत्ता सामान्यकोडिस्थे द्रागित्येव पदे यदि पौरुषेण प्रयत्नेन बलात् सन्त्यज्यवासनाम् स्थितिम् बध्नासि तत्त्वज्ञक्षणमप्यक्षयात्मिकाम् तत्साधु पदमासादयस्यलम् तत्ता सामान्यरूपे वा करोषि स्थितिमादराद तत्किञ्चिदधिकेनेह संवित्तत्वे कृदध्यानो निदाख यदि तिष्ठसि तद्यत्नेनाधिकेनोच्चैरासादयसि तत्पदं यदि यत्नं करोषि भोः यावद्विलीनं न मनो न तावद्वासनाक्षयः न क्षीणावासना यावच्चित्तं तावन्न शाम्यदि यावन्न तत्त्वविज्ञानं तावच्चित्तशमकुतः यावन्नचित्तोपशमो न तावत्तत्त्ववेदनम् यावन्न वासनाशस्तावत्तत्त्वागमकुतः यावन्नतत्त्वसम्प्राप्तिर्न तावद्वासनक्षयः तत्त्वज्ञानम् मनोनाशो वासनाक्षय एव च मिथकारणदाम् भोगे चाम् दूरतस्त्यक्त्वा त्रयमेतत् समाचर वासनाक्षयविज्ञानमनो महामदे समकालम् चिराभ्यस्ता भवन्ति भलदा मदाः त्रिभिरेभिः समभ्यस्तैर्हृदयग्रन्थयो दृढाः निःशेषमेव तृट्यन्ति विषच्छेदागुणा इव वासनासंभरित्यागसमं प्राणनिरोधनं विदुस्तत्वविदस्तस्मात् तदप्येवं समाहरेद् वासनासंभरित्यागाचित्तं गच्छत्यचित्तदा प्राणस्पन्दनिरोधा च यथेच्छसि तथा कुरु प्राणायाम म दृढ़ाध्याुक्ता चुदत्त आसनासनगन प्राणस्पंदो निध्यदे निसंगवहारवभावर्जना शरीरनाशदर्शिवाद्वासना प्रवर्त यः प्राणपवनस्पन्दश्चित्तस्पन्दः स एव हि प्राणस्पन्दजये यत्नकर्तव्यो धीमतो च कैः भव संवेद्यवर्जितमनुत्तममाध्यमेकं कृद्येवत्तिष्टकलनारहितक्रियां तु कुर्वन्न कर्तृपदमेत्यशमोदितश्रीः मनागपिविचारेण चेत् स स्वस्य निग्रहः पुरुषेण कृतो येन तेनाप्तं जन्मनः फलम् इति चतुर्धोऽध्यायः ओम्